ॐ अस्य श्री किलकमन्त्रस्य शिवऋषिः अनुष्टुप्छन्दः श्रीमहासरस्वतीदेवता श्रीजगदम्बाप्रत्यर्थं सप्तसतीपाठङ्गत्वेन जपे विनियोगः ॐ नमश्चण्डिकायै मार्कण्डे उवाच ॐ विशुद्धज्ञानदेहाय त्रिवेदे दिव्यचक्षुषे धेयप्राप्तिनिमित्ताय नमः सोमासुधारिणे सर्वमेतद्विजानीयान् मन्त्राणामभिकीलकं सोऽपि क्षेमभुवाप्नोति सततं जाप्य तत्पर सिध्यत्वच्चाटनादीरे वस्तूनि सकलान्यपि एतेन स्तुवतां देवी श्रोत्रमात्रेण सिध्यते, न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते विनाजापेन सिद्ध्येत सर्वमुच्चाटनादिकं समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हर कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकारसः समाप्तिर्न च पुण्यस्य तां यथा वन्द्यन्तृणां सोऽपि क्षेमववाप्नोति सर्वमेवं न संशयः कृष्णायां वा चतुर्दश्याम् अष्टभ्यां वा समाहितः ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदते इत्थंरूपेण कीलेन महादेवेन कीलितं यो निष्कीलां विधायिनां नित्यं जपति संस्फुटं ससिद्धशगणशोऽपि गन्धर्वोजायते नर न चैवाप्यटस्ततत्तस्य न चैवाप्यटतस्तस्य यं क्वापीह जायते नापमृत्युवशं याति मृतो मोक्षमवाप्नया ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो ततो ज्ञात्वयि वशं पन्नम् इदं प्रारभ्यते बुधै सौभाग्यादिति यत्किञ्चित् दृश्यते ललनाजने तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभं शनैस्तु जाप्यमानेऽस्मिन् श्रोत्रे सम्पत्तिरुच्चकैर्भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः शत्रुहाणि परो मोक्ष तूयतेषा न ॐ श्रीदुर्गादेव्यै नमः